नन्दानन्दप्रिया निद्रा नृनुता नन्दनात्मिका नर्मदा नलिनीनीला ने नीलकण्ठसमाश्रया नारायणप्रिया नित्या निर्मला निर्गुणानिधिः निराधारा निरुपमा नित्यशुद्धा निरञ्जना नादबिन्दुकलातीता नादबिन्दुकलात्मिका नृसिंहनी नगधरा नृपनागविभूषिता नरकक्लेशमनी नारायणपदोद्भवा निरवद्या निराकारा नारदप्रियकारिणी नानाज्योतिस्समाख्याता निदिदा निर्मलात्मिका नवसूत्रधरा नीतिर्निरुपद्रवकारिणी नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी नवनीतप्रिया नारी नीलजीमूतनिस्वना निमेषिणी नदीरूपा नीलग्रीवानिशीश्वरी नामावलिर्निशुम्भग्नी नागलोकनिवासिनी नवजाम्बूनदप्रख्या नागलोकाधिदेवता नूपूराक्रान्तचरणा नरचित्तप्रमोदिनी निमग्ना रक्तनयना निर्घातसमनिस्वना निलया, नि्यूहोपीचारिणी पावती परमोदारा पर्रह्मात्मका परा पंचकोश विर्मुक्ता पंचपातकनाशिनी पर चिध् पंचका पंची पूर्णिमा परीति पर पुराणी पुन्या, पौरुषी पुण्या पुण्डरीकनिभैक्षणा पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी पावनी पादसहिता पेशला पवनाशिनी प्रजापतिपरिश्रान्ता पर्वतस्तनमण्डला पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा पद्मपत्रा पद्मपदा पद्मिनीप्रियभाषिणी पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी पुष्कला पुरुषा पर्वा पारिजातसुमप्रियः पतिव्रता पवित्राङ्गी पुष्पहासपरायणा सुता पौत्री पुत्रपूज्यापयस्विनी पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी पुराणे पुण्यशीला च प्रणतार्तृविनाशिनी प्रत्युम्नजननी पुष्टा पितामहपरिग्रहा पुण्डरीकपुरावासा पुण्डरीकसमानना पृथुजङ्गा पृथुभुजा पृथुपादा पृथुदरी प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापदा प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता परमाया परज्योतिः परप्रीतिः परा गतिः पराकाष्ठा परेशानी पाविनी पावकद्युतिः पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी पीताङ्गी पीतवसना पीतशय्या पिशाचिनी पीतक्रियापिशाचग्नी पाटलाक्षीपटुक्रिया पञ्चभक्षप्रिया चारा पूतना प्राणघातिनी पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी पञ्चमात्रात्मिका पृथ्वी पतिका पृथुदोहिनी पुराणन्यायमीमांसा पाटली पुष्पगन्दिनी पुण्यप्रजापारदात्री परमार्गैकगोचरा प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी फलदा फल्गुः फूत्कारी फलकाकृतिः फणीन्द्रभोगशयना फणीमण्डलमण्डिता बालबाला बहुमता बालातपनिभांशुका बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता बन्दी देवी बिलवती बडिशघ्ने बलिप्रिया बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता बृहस्पतिस्तुता वृन्दा वृन्दावनाविहारिणी बालाकिनी बिलाहारा बिलवासा बहुदका, बहुनेत्रा बहुपदा बहुकर्णावतंसिका बहुबाहुयुता बीजरूपिणी बहुरूपिणी बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा बद्धपद्मासनासीना बिल्वपत्रतलस्थिता बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा बाला बाणासनवती वडवानलवेगिनी ब्रह्माण्डभैरन्तस्था ब्रह्मकङ्कणसूत्रिणि भवानी भीषणवती भाविनी भयहारिणि भद्रकाली भुजाङ्गाक्षी भारती भारताशया भैरवी भीषणाकारा भूतिदा भूतिमालिनी भामिनी भोगनिरता भद्रदा विक्रमा, भूतवासा भृगुलता भार्गवी सुरार्चिता, भागीरथी भोगवती भवनस्थाभिषग्वरा भामिनी भोगिनी भाषा भवानी भूरि भूरिदक्षिणा